अथ दशमम् दशकम् वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादादम्भोजयो निरसृजत्किल जीवदेहान् स्थास्नूनि भूरुहमयाणि तथा तिरश्चाञ्जातिर्मनुष्यनिवहानपि देवभेदान् मिथ्याग्रहास्मि मतिरागविकोपभीतिरज्ञानवृत्तिमिति पञ्चविधाम् सृष्ट्वा उदाम तामसपदार्थविधानदूनस्तेने त्वदीय चरण स्मरणम् विशुद्ध्यै तावत्सससर्जमनसा सनकम् ते सृष्टिकर्मणि तु नामानि मे कुरु पदानि च हा विरिञ्चेत्यादौ रुरोद किल तेन स रुद्रनाम एकादशाह्वयतया च विभिन्नरूपम् रुद्रम् विधाय दयिता वनिताश्च दत्त्वा तावन्त्य दत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरम् तम् रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घसम्पूर्यमाण भुवनत्रयभीतचेताः मामा प्रजासृज तपश्चरमङ्गलायेत्याचष्टतम् कमलभूर्भवदीरितात्मा तस्याथ सर्गरसिकस्य मरीचिरत्रिस्तत्रागिराः क्रतुमुनिः पुलः पुलस्त्यः अङ्गादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन्भवदङ्घ्रिदासः धर्मादिकानभिसृजन्नथ कर्दमम् च वाणीम् विधाय विधिरङ्गजसङ्कुलोऽभूत् त्वद्बोधितैः सनकदक्षमुखैस्तनूजैरुद्बोधितश्च विररामतमोऽविमुञ्चन् वेदान् पुराणनिवहानपि सर्वविद्याः कुर्वन् निजाननगणाच्चतुरानोऽसौ पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम प्राप्नुवम्स्तव पदाम्बुजमश्रितोऽभूत् जानन्नुपायमथ देहमजो विभज्य स्त्रीपुंस भावमभजन् मनु तद्वधूभ्याम् ताभ्याम् च मानुषकुलानि विवर्धयम्स्त्वम् गोविन्दमारुतपुरेश निरुन्धिरोगन् इति दशमम् दशकम्